ब्रह्माण मध्यभाग्या फिफ्टीन श्राद्धक्राह्मण परीक्षा ऋषय ऊचु अहो धन्यसु दश्राद्धक प्रकर्ति श्राद्धकस्तु ऋषिभ प्रकर्तिविस्तरो विशेषेण दु कीर्तितः देवाशेषं महाप्राज्ञा ऋषेस्तस्य मतं यथा सुद उवाच कीर्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु श्राद्धं प्रति महाभागस्तन्मे विस्तराद उक्तं श्राद्धमया पूर्वं विधिश्च श्राद्धकर्मणि परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परीक्षणं नमीमांस्यासदा विप्राः पवित्रं ह्येतदुत्तमं दैवेपित्र्यजनियदं श्रूयते वै परीक्षणम् यस्मिन् दोषाः प्रदृश्येरं स हि कार्येषु वर्जितः जानी याद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः अविज्ञानं दिविजं श्राद्धे न परीक्षेत पण्डितः सिद्धाहि विप्ररूपेण चरन्धि पृथिवीमिमां तस्मादधिमायान्तमभिगच्छेत् कृताञ्जलिः पूजये चार्ख्यपाद्याभ्यां तदाभ्यञ्जनभोजनैः उर्वीसागरपर्यन्तं देवयोगेश्वरः सदा नानारूपैश्चरन्त्ये दे प्रजाधर्मेण योजयन् तस्माद्द्यात् सदा दान्तस्समभ्यार्चातिथिं नरः व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च अग्निष्टो मम पयसा प्राप्नुयाद्वैफलं तथोक्तस्य च पायसेन स षोडशी सत्रफलं कृतेन मध्वादिरात्रस्य फलं तथैव तथाप्नुयाच्छ्रद्धधानो नरो वै सर्वैःकामैर्भोजयेद्यस्तु विप्रान् सर्वार्थदं सर्वविप्रादिधेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम् यस्तु श्राद्धे तिथिं प्राप्तं दैवे तं वै देवा निरस्य हदो यदरा वसु देवाश्च पितरश्चिज आवेश विप्रोक्ष्य लोकानुग्रहणापूजिदहतेश दिश्येत्कामांश्च पूजितः सर्वस्वेनापि तस्माद्धि पूजयेदतिधिं सदा वानप्रस्थो गृहस्थश्च सदामभ्यागतो यथा वालकिल्यो यधिश्चैव विज्ञेयोह्यतिधिः सदा अभ्यागदःपाकचार दधि स्यादपावकः अधिधेरधि प्रोक्तसो तिथिर्योग उच्यते नाव्रती न ना च सङ्कीर्णो न ना विद्यो नाविशेषवित् न ना च सन्तानसम्बन्धो न ना देवी नागशेतिधिः पिपासिताय श्रान्ताय भ्रान्तायादि बुभुक्षते तस्मै सत्कृत्य दातव्यं यत्नम्यफलमिच्छदा न वक्तव्यं सदा विप्रक्षुधितेर्नास्ति किञ्चन तस्मै सत्कृत्य दातव्यं सदा पचितिरेव सः अक्लिष्टमव्रणं युक्तम् कृशवृत्तिमयाचकं एकान्तशीलं धीमन्दं सदा श्राद्धेषु भोजयेद नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान् अपि जातिशतं गत्वा न प्रमोदं भोजयेद्विप्राणेकपङ्क्त्यां तु यो नरः नियुक्तोक्ष्यनियुक्तो वा पङ्क्त्या हरदि पाप्मानं गृह्यदे च नश्यति यतिस्तु सर्वविप्राणां सर्वेषामग्रदो भवेद् पञ्चवेदान् सेदिहासान्यः पढेद्विजसत्तमः योगादनन्तरं सोध नियोक्तव्यो विजानता त्रिवेदोऽनन्तरं तस्य द्विवेदस्तदनन्तरम् एकवेदस्ततः पश्चादुपाध्यायस्ततः परं पावना यत्र सङ्ख्यातास्तान् प्रवक्ष्ये निबोधत य एते सर्वे ते ह्यनुपूर्वशः षडङ्गविध्यानयोगौ सर्वतत्रस्तथैव च या या वरश्च पञ्चैते विज्ञेयाः श्राद्धकल्पे भवेद्यस्तु सन्निपत्यदुपावनः चतुर्दशानां विद्यानां मे कस्यामपि पारगाः यथा वद्वर्तमानाश्च सर्वेते। पङ्क्रिपावनाः असन्देहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः यश्च रेद्विधिवद्विप्रसमाद्वादशसन्ततः त्रिनाचिकेदस्त्रैविद्यो यश्च धर्मान् द्विजः पठेद् बार्हस्पत्ये महाशास्त्रे यश्च पारङ्गदो द्विजः सर्वे पावना विप्राः पङ्क्तीनां समुदा आमन्त्रितस्तु यः श्राद्धे योषिदं सेवदे द्विजः पितरस्तस्य तन्मासं तस्मिन् रेदसि शेरदे ध्याननिष्ठाय धातव्यं सानुक्रोशाय धीमते यदिं वा लखिल्यं वा भोजयेच्छ्राद्धकर्मणि वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः वानप्रस्थेन ऋषयो वालकिल्यैः पुरन्तरः यदीनां तु कृदा पूजा साक्षात् ब्रह्मादु पूजितः आश्रमो पावनो यस्तु पञ्चमसङ्करात्मकः चत्वारस्त्वाश्रमापूज्याश्राद्धे देवे तथैव चतुराश्रम बाह्येभ्यस्तेभ्य श्राद्धे न दापयेद् यस्तिष्ठेद्वायुभक्षश्च चादुराश्रमबाह्यतः अनाश्रमी तपस्ते पे न तं तत्र निमन्त्रयेद् अयद्यर्मोक्षवादी च श्रुतौ तौ पङ्क्ति दूषकौ उग्रेण तपसा युक्ता बहु स्न्याश्चित्रवादिनः निन्दन्ति सर्वेते द्विजातिभ्यः सर्वे ते पङ्क्रिदूषकाः औपवस्तास्तथा साङ्ख्या नास्तिका वेदनिन्दकाः ज्ञानं निन्दन्ति ये केचित् सर्वे ते पङ्क्रिदूषकाः वृद्धामुण्डाश्च जटिलाः सर्वे कार्पणिकास्तथा निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत् कारुकादीननाचाराल्लोकवेदबहिष्कृतान् गायनान्वेदवृत्तांश्च हव्यकव्येन भोजयेद। एतैस्तु वर्तयेद्यस्तु कृष्णवर्णं स गच्छति योस्नादिसहशूद्रेणा सर्वे ते पङ्क्तिभूषणाः व्याकर्षणं सत्त्वनिबर्षणं च कृषिर्वणिज्या पशुपालनं च शुश्रूषण चाप्य गुरोप्य मिथ्यासकन सर्वा नुत्ताजय मिथ्या प्रवादी निंदकदाबिक उपपादक पदक संयुक्ता पादक वेदे निगद धा लोभमोह फलान ब्रह्म विक्रयिणस्तान्वश्राद्धकर्मि वर्जय नवीस्तु वेद नियुक्त स सपापकृत। वक्ता वेदफलाभ्रश्येदफला त भृतक्यापस्तु भृतका यहादस्ताव श्राद्धे ब्रह्मणक्रय विक्रयी क्रयश विक्रयश्च्वा जीवितागर्शित पृथिरेषाद् वैश्यस्य ब्राह्मणस्य दुपातकम् आकरेद्धृदितो वेदान् वेदेभ्यश्चोपजीवति उभौ तौ नार्हदश्राद्धं पुत्रिकापतिरेव च वृथा यचेद गच्छेद्यो यचेदवृथारैः नार्हदस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी स्त्रियो रक्तान्तरा परदार परदारपराश्च एव अर्धकामरथाश्चैव न तान् श्राद्धेषु भो वर्णाश्रमाणां धर्मेषु विरुद्धास्सर्वकर्मणि स्थेनश्च सर्वयाजी च सर्वे ते पङ्क्रिदूषकाः यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः न तदश्नन्तिपितरो यश्च वाच्यं समश्नुते श्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेद यो दद्याच्चानुसम्मोहान्न दद्गच्छति वै पितॄन् तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा अवशेषं तु दातव्यमनाद्यं तु विशेषतः पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्तरः यावन्नश्रपितं चान्नं यावत्तौष्ण्यं न मुञ्चति तावदश्नन्दिपिदरो यावदश्नन्दि वाग्यदाह दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च साङ्गुष्ठेन तथा नासुरेभ्यो यथा भवेद् सर्वाणि दानानि च विशेषतः अन्तर्जानोपविष्टेन तद्वदाचमनं भवेद् मुण्डाञ्जिलकाषायान् श्राद्धकर्मणि वर्जयेद् ये दु वृत्ते स्थिता नित्यं ज्ञानिनोध्यानिनस्तथा देवभक्ता महात्मान पुनीयोर्दर्शनादपि शिखिभ्यो धातुरक्रेभ्यः स्त्रिदण्डेभ्यः प्रदापयेद् सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरं तस्मात् पश्यन्ति ते सर्वं यत्किञ्चिज्जगदीगतं व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम् सत्यासत्यं च यद्दृष्टं सदसत्य महात्मभिः सर्वज्ञानानि सृष्टानि मोक्षादीनि महात्मभिः तस्मात् तेषां सदा भक्तफलं प्राप्नो दिवोत्तमं ऋचश्च यो वेद स वेदवेदान्यजूं षि यो वेदयज्ञम् सामानियो ेदस वेद ब्रह्मो मनस ब्रह्मांडे महापुराणे वायु प्रोक् मध्यभागे तृतीय उपोद श्राद्धके ब्राह्मणपरीक्षा नाम पंचदशोध्याय ओम।